हरि ओम् श्रीसीता रामचन्द्रभ्य नमहे अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे पञ्चम स्वर्गः सीतायाः कृते श्रीरामस्य शोको विलापश्च सातुलेन विवेत् स्वरक्षा सुसमाहितः सागरस्योत्तरे तीरे साधु स विनिवेशितः मन्दश्च द्विदशो भौ तत्रैव नरपुङ्गभो विचेरतुश्च तां सेनाम् रक्षार्थं सर्वतोदृशम् द्विशायां तु सेनायाम् तीरेण दन दीपते पार्श्वर्थं लक्ष्म लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् शुकश्च किल कालेन गच्छता ह्यपगच्छति मम च नि हनिवर्धते न मे दुःखम् प्रिया दूरे न मे दुःखम् हृतेति एत च एतदेवर्तते वाहि वा त यथ क्रान्ताय तां पृस्पृष्ट्वा मामपि स्पृश स्वयि मे गात्र संस्पर्शे चन्द्रे दृष्टिः ीतं विवशये हनाथेति प्रियासा माम् ह्रियमरणायद्रवी तद् योगिन्दवन धनवताय तच्चिन्ता विमलाक्षिषाय रात्रिं दिवं शरीरं मे दह्यते मदनार्निन अवगाह्याणवं सप्स्ये सौमित्रे भवता विना एवं च प्रज्वलं न मा सुप्तम् जवेदहेत् भवे तत्कामयानस्य एतेन जीवितुम् यदहं सा च वामोरु एकाम् धरणिमाश्रितौ केदारस्यैव केदार चोदकस्य के निरोदकः उपस्नेहेन जीवामि जीवन्तीम् यच्छृणोमि तां कदा नु खलु शतपत्रायते क्षणम् विजित्य चत्रुम् रक्ष्यामि सीतां सीतामिव श्रियम् कदा सुचारु दन्तोष्ठम् तस्या पद्मम् इव ननम् ईषद्दुन्नान्वितपास्यामि रसायनम् इव सुरहे तस्यासहितो पीनो स्तनौ तालफलोपम कदा नु खलु श्लिष्यन्त्या मां भजिष्यतः स नूनं वसितापाङ्गी रक्षो मध्ये गतः सती मन्नाथनाथेनैव प्रातारं नाभिगच्छति कथं जनक राजस्य दुहितः मम च प्रियः राक्षसि मध्यगाशेते स्नुषा दश रथस्य च अभीक्षोभ्याणि रक्ष्यासि सा विधूयोत्पतिष्यति जलद्वन् नीलान् शशीलेखा शरत्रि वै स्वभावे तनु कानूनम् शोकेन नशनेन च भूय तनुतर सीताय देन कार्य विपर्यात् कदानुराक्षसेन्द्रस्य निधायोर्सियकान् शोकम् प्रत्याहरिष्यामि शोकमुत्सृज्यमानसन् कदा न खलु मे सधी सीतामरसुधूपमः कण्ठमालम्ब्य जलम् कदा शोकम्य मङ्घोरम् मैथिली विप्रयो गजम् सहसा विप्रमोक्ष्यामि वासशुक्लेतरम् यथा एवं बिरपतस्तस्य तत्र रामस्य धीमतः दिनक्षया मन्दवपु भास्करो स्तम्भ आश्वासितो लक्ष्मणेन रामः सन्ध्यामुपासत स्मरन् कमले पत्राक्षिम् सीतां शोकाय कुलीकृतः इत्यार्शे श्रीमद् रामायणे वाल्मीकि अधिकारे युद्धकाण्डे पञ्चमः सर्गः